मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेण्टि टु मुद्गलवरप्रदानं श्रीगणेशाय नमः सूत उवाच गणेशभचनं श्रुत्वा भक्तिभावसमन्वितः मुद्गलप्रणिपत्यैनमूचिवान् हर्षपूजितः मुद्गल उवाच किं लोभयसे लोभयसि डुण्ढे वृणोमि च न किञ्चन तव वाक्यानुरोधेन वृणोमि त्वं ददासि चेद् तव भक्तिं दृढां देहि सदा खण्डात्मिकां प्रभो सम्पूर्णा भक्तिमिच्छामि गाणेशीं यत्र कुत्र मुद्गलस्य वच श्रुत्वा विस्मितो गणराट् स्वयम् अहो सम्पूर्णभावेन भक्तिमेकां वृणोषि यत् गणेश उवाच मदीया त्वचलभक्त्रिसम्पूर्णा प्रभविष्यति त्रैलोक्ये तव भाग्येन समं भाग्यं न विद्यते नवधा विप्र चित्ते रसदायिका दशमं नास्ति संस्थानं चित्तस्य रसधारणे श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् अर्चनं वन्दनदास्यं सख्यं देहनिवेदनं नवचिह्नं प्रवक्ष्यामि भक्त्रिमाहात्म्यमुत्तमं तेनैव प्राप्यते भक्तिर्जनैर्मे नात्र संशयः श्रवणं मद्गुणानां च मननं तादृशं पुनः तस्यानुकूलं कर्तव्यं जायते नो भवस्ततः तत्र सर्वा प्रजायते श्रवणं मे तया कार्यं गुणानां जन्धुना सदा प्रियं भवति नान्यच्च मदेकरसभावदः ते नान्यश्रवणे प्रीतिर्यदा नोत्पद्यते प्राप्ता भक्तिर्मे श्रवणात्मिका अहं वसामि तत्कर्णे सदा तद्भक्तिलालसः मद्गुणानां सदा यस्य कीर्तनं रसदायकं नान्यकीर्तनभावेषु तस्य वै मनसो रसः तदा भक्तिसुसम्पूर्णा मदीया कीर्तनात्मिका प्राप्ता तेन सदा तस्य जिह्वाग्रे प्रवसम्यहम मदीयकार्य विस्मतिर्न जायते समय सवधानो योग्रतपूजा मगदूपति महामुने स्मृत्यां वसामि तस्याखं भक्तिभोगार्थमेव हि मदीयपादपद्मं यत् सत्यमन्यदसध्यकं ज्ञात्वा देहश्रमे वै यो नालस्येन प्रवर्तते मम पादाश्रयपूर्णः सदा येन कृदो मुने अन्यत्रालस्यभावेन भावेन मिथ्याभूते स्थितेन च तस्य भक्तिसमुत्पन्ना पादसेवनरूपिका तस्या, भक्ति पाद तस्या लसविहीनेहं देहे स्थास्यामि निश्चलः साङ्गोपाङ्गं मदीयं कर्म भावतः अन्यच्च यादृश्यम् जातम् तादृशम् किल तद्भवेत् अर्चनात्मकभक्तिस्सा सदा प्राप्ता नरेण वै साङ्गो पाङ्गदया तत्र वसेयम्भक्तिभाविदः न मत्समम् भवेज्जादु वेदादिषु विचारदः मयि श्रेष्ठत्वमापन्नम् श्रेष्ठम् मन्नमनं भवेद् यदा वै मत्समं नास्ति चित्ते यस्य प्रतिष्ठितं तदा वदनजा भक्तिप्राप्ता तेन न संशयः तस्य श्रेष्ठत्वभावेऽहं सदा तिष्ठामि सर्वतः भक्तिभोक्त्रा स्वयं भूत्वान्यत्र श्रेष्ठत्वनाशकः गणेशोपासनामार्गो यथा शास्त्रेषु दृश्यते तं दृष्ट्वा तादृशं भूत्वा गाणपत्योऽभिमानतः मां भजेत् यत्स्वभावेन गणेशाहङ्कृतेर्धरः तेन दास्यं समापन्नं भक्तिभावेन भावितम् गाणपत्यस्वभावेकं तं स्थास्यामिस्वभावतः दास्यभक्तिविभोगार्थमेकनिष्ठाप्रकाशकः मित्रस्य सन्निधाने तु यथा गोप्यं न विद्यते भाष्यान्तरं च मित्रस्य मित्रं जानाति सर्वतः तथा भाष्यान्तरैर्हीनो दम्भहीनः स्वभावतः भजदे मां नरो यस्तु सख्यम् प्राप्तं मदीयकं यत्र कुत्र स्थितेनैव यद्यन्मनमिसन्धृतं गणेश्वरेण तज्ज्ञातं सर्वान्तर्यामिनाखिलम् एतादृशविचारेण भययुक्ते न चेदसा सर्वभावेन माम्यस्तु भजतेनन्यचेतसा तस्य सख्ये सदाकं कं वै तिष्ठेयं भक्रिलोलुपः बाह्यान्तरैकभावेषु मोक्षितस्तस्य चेष्टया पञ्चर्था भूमिर्या, तां त्यक्त्वाकं तया विना गणेशोऽकं न सन्देहो येनात्मेदि निवेदितः अहं भावविहीनेहं भक्तिभावेन संस्थितः नैव भिन्नो भविष्यामि तस्माज्जानीहि भो मुने इत्येवं न वधा भक्तिं रसयुक्तां करोति यः सहदे क्षणमात्रं न चित्तं मद्रसहीनकं तदा सम्पूर्णभक्तो मे जादौ वै नात्र संशयः अहं मोहेन संयुक्तस्तत्र सर्वदा न क्षणं तं परित्यक्तुं शक्तोऽहं भक्तियन्द्रितः न चित्तभावेन तं रक्षिष्यामि सर्वदा न च भक्तिसमो भावो मम प्रीतिकरः तेन बद्धो भविष्यामि हृदये तस्य धीमतः नवधा मां भजन्ते ये नर नानाविधाः सदा तेषां यत्राधिकत्वं च भक्तावेकस्वभावतः अधिका च रसोत्पत्तिर्यत्र भक्तौ समागता तां मुख्यत्वमापन्नं नवधा भवने सति तत्र मुख्यस्वभावेन भक्तराजाश्च ये स्थिताः तान् वदामि महाभागशृणु तत्त्वमिदं महद श्रवणे मद्गुणानां यदाधिक्यं खलु विद्यते तत्र वै कार्तिकेयश्च भक्तराजः प्रकीर्तितः कीर्तने भक्तराजस्तु सूर्य आत्मा स्मरणे रामचन्द्रो वै भक्तराजस्मृतो बुधैः पार्वतीपादसेवायां भक्ताधीशा च संस्मृता महाविष्णुस्वयं राजा भजतामर्चने मम वन्दने भक्तराजेन्द्रशङ्करसर्वभावतः तस्यं भक्ताधिपप्रोक्तो रामो वै जमदग्निजः सख्ये चतुर्मुखः साक्षात् भक्ता वै या सखी शुक्रो भूभो मयित्वात्मनिवेदिनां यदे भक्ताधिपा प्रोक्ता अन्तराय विहीनकाः मां भजन्ते महाभागा ब्रह्मभूतास्तदोऽप्यहो त्वं तेषां च सदा राजा कृतो मे नात्र संशयः भजिष्यसि यत्नतः न तवाधिक्यं भविष्यति पूर्णभक्तो मदीयस्त्वं भक्तेशे शकृतो मया मद्भक्तो त्वत्समो नैव भवन्न प्रभविष्यति वर्तते न कदा विप्रत्वदधीनोहमञ्जसा तवाङ्गवायुना स्पृष्टा हूदा वै दर्शनादिभिः भविष्यदिनसन्देहो ब्रह्मबुद्धियुधास्तद्धा सूत उवाच एवमुक्त्वार्दधेसौ गणेशो ब्रह्मनायकः तदा दिश मुनिप्रोक्त सर्वेषां वन्द्यदां गदः मुद्गलस्य चरित्रं यशृणुयाद्वा पठेन्नरः श्रावयेद्भावयुक्तेभ्यः स वै सर्वार्थसिद्धिभाक् इह भुक्त्वा किलान् भोगानन्दे ब्रह्ममयो भवेद् भक्तराजेन्द्रदातस्य विघ्नेशस्य भविष्यति ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः ओम्